श्रीहरये नमः अत त्रिषष्टितमोऽध्यायः श्रीसुक उवाच सानिरुद्धं। सा निरुद्धं तद्बन्धूनां च भारत चत्वारो वार्षिका मासा व्यतीयो अनुशोचतां नारद तदुपाकर्ण्य वार्तां बद्धस्य कर्म च प्रयुष्योणितपुरम् वृष्णयः कृष्णदेवताः प्रद्युम्नो युयुधानश्च गतः शाम्भोतधारणः नन्दोपनन्दभद्राध्या रामकृष्णानुवर्तिनः अक्षौहिणीभिर्द्वादशिभिः समेता सर्वज्योतिषं रुरुधुर्बाणनगरं समन्ता भजमानपुरोद्यान प्राकाराठा लघुपुरं प्रेक्षमाणो रुषा विष्टस्तुल्यै सैन्योऽभिनिर्ययौ बाणार्ते भगवान् रुद्रसो सुतै प्रमतैर्व्रतः आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः आसीसि तुमुलं युद्धम् अद्भुतं रोमहर्षणं कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि कुम्भाण्डकूपकर्णाभ्यां भलेन सखसंयुगः साम्बस्य बाणपुत्रेण बाणेन सहसात्यकेहें ब्रह्मादयः सुराधीशा मुनयसिद्धचारणाः गन्धर्वाप्सरसो यक्षां विमाने द्रष्टुमागमन् शङ्करानुसराञ्चौर्यभूतभ्रमतगुह्यकान् दागिनीर्यातु धान्नाश्च वेतालां स विनायकान् प्रेतमातृपिशाश्चांश्च कूष्माण्डान् ब्रह्म राक्षसान् द्रावयामास दीक्ष्णाघ्रैः शरैः शार्गधनुष्युतैः पृथक्विधानि प्रायुङ्क्तः पिनाक्य सत्राणि शार्ङ्गिणे प्रत्यैः समयामास शार्ङ्गपाणि अविस्मितः ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् आग्नेयस्य च पार्जन्यं नैनं पाशुपतस्य च मोहयित्वानुगिरिशं जृम्भणास्त्रेण जृम्बितं बाणस्य पृतनां शौरेर्जघानासि गतेषुभिः स्कन्तप्रद्युम्न बाणौघैर ्यमानः समन्ततः अश्रुग् विमुञ्चन् गात्रेभ्यः सिकि सर्वतः विशीर्यमाणं स्वभलं दृष्टो भाणोत्यमर्षणः कृष्णमप्यद्रवत्सङ्ख्ये रते साध्य कि धनु क्षाक युगभ बाण पंचश्ता एक रौद्वेरणुर्मद चिच्चेत भगवान् धनुं शियुगमत् हरिः सारथिं रसमस्वांश्च हत्वा शङ्खमपूरयत् तन्मातो कोटरा नाम नग्ना मुक्तशिरोरुहा पुरोवतस्ते कृष्णस्य पुत्रप्राणरिरक्षया ततस्तिर्यङ्मुखो नग्ना अनीरीक्षन् गताग्रजः बाणश्च तावद् विरतश्चिन्नधन्वा आविषत्पुरं विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपाथ अभ्यधावत दासार्हं देवस्तं दृष्ट्वा व्यश्रुज्वरम् महेश्वर वैष्णवेन युयु ज्वरावु महेश्णविता अलब्धवा अभयम भीतों महेश ज्वर शरणारती ऋषिकेश्रयधाजलि ज्वर उवाच नमामि त्वानन्दशक्तिं परेशं सर्वात्मानं केवलं ज्ञतिमात्रं विश्वोत्पत्तिस्थानसंरोधहे यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तं कालो दैवं कर्म जीवस्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारक तत्सङ्घातो बीजरोहप्रभाहस्त्वन्मायै शातन्निक्षेतं प्रभद्ये नानाभावैर्लीलयैवोपपन्नैर् देवान् साधून् लोकसेधुन् विवर्षे हंस्युन्मार्गान् हिंसया वर्धमानान् जन्मैतभारहाराय भूमेः तप्तोऽहं ते तेजसा दुःसहेन सान्दोक्रेणात्युल्भणेन तावत्तापो देहीनां धेन्द्रिमूलं नो सेवेरन्यावधानु श्रीभगवानुवाच त्रिशिरस्ते प्रसन्नोऽस्मि वेदुते मज्वराद्भयम् यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयं युक्त्युक्तोश्च्युतमानं यं गतो माघेश्वरो ज्वरः बाणस्तु रतमारूढ जनार्दनं ततो भाकुसकस्रेण नानायुधधरोऽसुरः मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण शुरनेमि मां चिच्चेत भगवान् बाहून् साका इव वनस्पतेः भाहुषुच्छिद्यमानेषु बाणस्य भगवान् भवः भक्तानुकम्प्युवव्रजन् चक्रायुधमभाषत श्रीरुद्रौवाच त्वं हि ब्रह्मपरं ज्योतिर्गूढं ब्रह्मणि वाङ्मये यं पश्यन्त्यमलात्मान आकाशमिव केवलं नाभिर्न भोग्निर्मुखमम्बुरेथो द्यौ शीर्षमासा श्रुतिरङ्ग्रिरुर्व्ये चन्द्रो मनो यस्य दृगर्क अहं समुद्रो जठरम्भुजेन्द्रघाम् रोमानीयस्यौषधयोऽम्भुवाः केशाविरिञ्चो धिषणाविसर्गः प्रजापतेर्हृदयं यस्य धर्म स वै भवान् पुरुषो लोककल्पः ताभावतारोऽयमकुण्ठधामन् धर्मस्य गुप्त्यै जगतो भवाय वयं च सर्वे भवतानुभावित विभायया भुवनानि सप्त त्वमेक आद्यपुरुषो द्वितीयस्तुर्यः स्वदृक्हेतुरहेतुरीशः प्रीतियशेतापि यथा विकारं स्वमायया सर्वगुणप्रसिद्ध्ये यथैव सूर्यपिहितश्चायया स्वया रूपाणि च सञ्चकास्ति एवं गुणेनापिहितो गुणांस्तवम् आत्मप्रदीभो गुणिनश्च भूमन् यन्मायामोहितधियः पुत्रधारगृहादिषु उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे देवदत्तमिवं लब्ध्वान् नृलोकमजितेन्द्रियः यो नाद्रियेत त्वत्पादौ स शोच्यो हि आत्मवञ्चकः यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरं विपर्ययेन्द्रियार्थार्थं विषमत्यमृतं त्यजन् अहं ब्रह्मात् विभुधा मुनयश्चामशालयाः सर्वात्मना प्रपन्नास्त्वाम् आत्मानं प्रेष्ठमीश्वरम् तं त्वा जगस्तिदियुदयान्तहेतं समं प्रशान्तं सुहृदात्मदैवम् अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम् अयं ममेष्टो दयितो नुवर्ति मया भयं दत्तममुष्यदेवन् सम्पाद्यतां तत् भवतः प्रसादः श्रीभगवानुवाच यथात्त भगवन्वन्न करवामप्रियं तवान् भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् अवद्योयं ममाप्येष वैरोचनिषुतोशुरः प्रह्लादाय वरोधत्तो न वध्यो दर्भोपशमनायास्य प्रवृत्नाभागवो मया सूदितं च बलं भूरि यश्च भारायि तम्बुवः सत्वारोष्य बुजासिष्ठा भविष्यन्त्यजरामराः पार्षधमुख्यो भवतो न कुतच्छिद्भयोशुरः इति प्रणम्य शिरसाशुरः प्राद्युम्निं रतमारोप्य सवद्ध्वा समुपानयत अक्षौहिण्या परिव्रतं सुवासमलङ्कृतं सपत्नीकं पुरस्कृत्य यायौरुद्रानुमोदितः स्वराजधानीं समलिं ध्वजैः सर्तोरणै सर्तोरणैरुक्षितमार्गचत्वरां विवेशसङ्कानगधुन्तु विश्वनैः अभ्युत्यतः पौरसुहृद्विजादिभिः य एवं कृष्णविजयं शङ्करेण च संयुगं संस्मरेत् प्रातरुत्थाय न तस्य स्यात्पराजयः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्थार्दे अनिरुद्धनयनं नाम त्रिषष्टिमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय